श्रीहरये नमः अथ पञ्चमोऽध्यायः श्रीसुख उवाच द्वारिद्युनद्या ऋषभकुरुणा मैत्रेयम् आसीनम् अघातभूतं क्षप्तोपसृत्याश्च्युतभावशुद्ध पप्रश्च सौशील्यगुणाभित् तृप्तः विदुर उवाच कर्माणि करोति लोका नतैः सुखं वा अन्यतो भारमं वा विन्देत तद एव दुःखं यदत्र युक्तं भगवान् वधेन्नः जनस्य कृष्णाद्विमुखस्य दैवात् अधर्मशीलस्य सुदुःखितस्य अनुग्रहायै शरन्ति भूतानि भव्यानि जनार्दनस्य तत्साधुवर्याद्दिशवर्त्मसं न संराधितो भगवान् येन पुंसां हृदि यश्चति भक्तिभूते ज्ञानं सधत्वाधिगमम् पुराणं करोति कर्माणि कृतावतारो यान्मात्मतन्त्रो भगवांस्त्रयधीशः यथा स सज्जाग्रयिधम् निरीह वृत्तिम् जगतो विधत्ते यथा इधम् निवेश्य सेते गुहायां स योगेश्वरादीश्वरये कयेतत् अनुप्रविष्टो बहुता यतासीत् क्रीडन् विधत्ते द्विजगोऽसुराणाम् क्षेमाय कर्माणि अवतार भेदैः मनो न तृप्त्यत्यभिशृण्वताम् नः सुश्लोकमौलेश्चरितामृतानि यैस्तत्त्वभेतैः अधिलोकनाथो लोकानलोकान् सकलोकपालान् अचीक्लृभत्यत्र हि सर्वसत्त्वनिकाय भेदोऽधिकृतः प्रतीतः येन प्रजानामुत आत्मकर्मरूपाभिथां ना च भितां व्यधत्त नारायणो विश्वश्रुट् आत्मयोनि रेतश्च नो रे वर्णय विप्रवर्य परावरोषां भगवन्व्रतानि श्रुतानि वे व्यासमुखाधीक्ष्णम् अद्रुप्नुमक्षुल्लसुखावहानां तेषां ऋते कृष्णकथां वृधौघात् कस्तृप्नुयात्तीर्थतभोभिधानात् सत्रेषु वः सूरिभिरीट्यमानात् यः कर्णनाडीं पुरुषस्य यातो भवप्रधां गेह रतिं चिनत्तीं मुनिर्विवक्षुर्भगवद्गुणानां सखापि देभारतमाह कृष्णः यस्मिन्नृणां ग्राम्यसुखानुबाधैर्मतिर्गृहीतानुहरे कथायाम् सा विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः हरे पदानुस्मृतिनिवृतस्य समस्तदुःखात्ययमासुधते तान् शोच्य शोच्यान् अभिधोऽनुशोच्ये हरे कथायां विमुखानघेन क्षिणोदिदेवानिमिषस्तु एषा आयुर्भृधा वात गतिस्मृतीनां तदस्य कौशारवसर्म धातुर्हरे कथामेव कथासुसारम् उद्धृत्य पुष्पेभ्य इवार्थबन्धो शिवाय न कीर्तयतीर्थकीर्तेः सविश्वजन्मस्थितिसंयमार्ते कृतावधारः प्रगृहीतशक्तिः सकारकर्माणि अतिपूरुषाणि यानीश्वरकीर्तयतानि मह्यम् श्रीशुक उवाच स एवं भगवान् स्पृष्टक्षत्रा कौशारविर्मुनिः पुंसां मैत्रेय उवाच साधुः पृष्ठं त्वयासादो साधो लोगान्सात् अनुगृह्णहतां कीर्तिं वितन्वता लोके आत्मनो दोषजात्मनः नैतचित्रं त्वयिक्षक्त भातरायणवीर्यजे गृहीतोऽननन्यभावेन यत्त्वया हरिरीश्वरः माण्डव्यसापाद्भगवान् प्रजासंयमनो यमः भ्रातु क्षेत्रे भुजिष्यायां जातकसत्यवतीसुतात् भवान् भगवतो नित्यं सम्मतः च यस्य ज्ञानोपदेशाय माधिशद्भगवान् व्रजन् अत अतते भगवल्लीला योगमायो बबृह्मिताः विश्वस्थित्युद्भवान्तार्था वर्णयाम्यनुपूर्वसुहो भगवान्नेघ आसेदमग्र आत्मा आत्मनां विभुः आत्मेश्चानुगतावात्मा नानामत्युपलक्षणः स वा एष दधा द्रष्टा पाठ मेने सन्तमिवात्मानां सुप्तशक्तिरसुप्तदृक् सा वा एतस्य सन्द्रष्टुशक्तिस्सतसदात्मिका ययेधं निर्ममे विभुः कालवृद्ध्यातु मायां गुणमय्यामधोषजहां पुरुषेणात्मभूतेन वीर्यमाधत्तवीर्यवान् ततो भवन्महत्तत्त्वम् अव्यक्तात् कालचोदिदात् विज्ञानात्मात्मदेहस्तं विश्वं व्यञ्जंस्तमोऽनुदहा सोप्यं सो गुणकालात्मा भगवद्दृष्टिगोचरः आत्मानं व्यकरोतात्मा स्वस्यास्य शुश्रुषया महत्तत्त्वात् विकुरुणावात् अहं तत्त्वं व्यजायत कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः वैकारिकस्तैजसश्च तामसश्चेत्यहं धृधा अहं तत्त्वात् विकुर्वाणात् मनोवैकारिकादभूत् वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च तामसो भूतः सूक्ष्माधेर्यतः कं लिङ्गमात्मनः कालमायां स योगेन भगवद्वीक्षितं नभः नभसोऽनुसृतं स्पर्शं विकुर्वन्निर्ममेनिलम् अनिलोऽपि विकुर्वाणो नभोऽसोरुभलान्वितः ससर्जरूप तन्मात्रं ज्योतिर्लोकस्य लोचनम् अनिलेनान्वितं ज्योतिर्विकुर्वत्परवीक्षितम् आतत्ताम्भोरसमयं कालमायां स योगतः ज्योतिषाम्भोनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितं महीं गन्तगुणामाधात् कालमायां स योगतः भूतानां नभ आदीनां यत्यद् भव्या वरावरम् तेषां परानुसंसर्गात् यथासङ्ख्यं गुणान् विदुः एते देवा खल विष्णो कालमायां सलिङ्गिनः नानात्वा स्वक्रियानीशा प्रोसु देवा उचू। देवावुचून् न मदे देवपदारविन्दं प्रपन्नतापोपसमातपत्रम् यन्मूलकेता यदयोज्य सोरो संसारदुःखं बहिरुक्षिपन्ति दादर्यदस्मिन् भव ईशजीवास्तापत्रयेणहदा न शर्मा आत्मल्लभन्ते भगवन्स्तवाङ्कृश्चायां स विद्यामत आश्रयेम मार्गन्ति यत्ते मुखभद्मनीटैश्चन्तः सुपर्णैरुक्षयो विविक्ते यस्यागमर्षोतसरिद्वराया पदं पदं तीर्थपथः प्रपन्नाः यश्रद्धया श्रुतभक्त्या च भक्त्या संरुज्यमाने कृदयेऽवधाय ज्ञानेन वैराग्यभलेन धीरा व्रजेमतत्तेऽग्रिसरोजपीठम् विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजेते व्रजेम सर्वे शरणं यदी स्मृतं पश्यत् त्यभयम् स्वपुंसाम् यत्सानुभन्ते सति देहगेहे ममा किमित्युढदुराग्रहाणाम् पुंसां सुधूरम् वसतोऽपि भुर्याम् भजेम तत्ते भगवन्पदाब्जम् सान्त्वै ह्य सद्वृत्तिभिरक्षिभिर्ये पराकृतान्तर्मनसः परे स अथो न पश्यन् द्युरुगाय नूनं ये ते बधस्या स विलासलक्ष्म्याः पानेन ते देवकथासुधायां प्रवृद्धभक्त्या विसदासयाये वैराग्यसारं प्रतिलभ्यभोतं यथाञ्जसा अन्वियु अकुण्ठदिष्ण्यं तथा परे योग फलेन जित्वा प्रकृतिं बलिष्ठां त्वामेव धीरा पुरुषं विसन्ति तेषां क्षमः स्यात् न तु सेवया ते तत्ते वयं लोकशुश्रुक्षयाद्य त्वयानुसृष्टाद् ब्रिभिरात्मभिस्म सर्वे न शक्नुमस्तत्प्रतिहर्तवे यावद ते यावद् बलिं ते जहरामकाले यथा वयं शान्तमधाम यत्र यथोपयेक्षान्त कूटस्थ आद्यः त्वं देवशक्त्यां गुणकर्मयो नो रेतस्त्वजायां कविमादधेजः ततो वयं सत्प्रमुखा यधर्ते बभूविमात्मन् त्वं नः सु शक्त्या देवक्रियार्थे यदनुग्रहाणाम् इति श्रीमद्भागवते महापुराणे तृतीयस्तन्ते पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहराजिके जयम्